सर्गः सताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम् जयः प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः तथा व्यादेष्टुमर्हसि स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् विनिक्षिपद्बलम् सर्वम् बहिरन्तश्च मन्दिरे ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये प्रहस्तः प्रमुखे राज्ञो निशसादजगाद च विहितम् बहिरन्तश्च बलम् बलवतस्तव कुरुष्व विमनाः क्षिप्रम् यदभिप्रेतमस्ति ते प्रहस्तस्य वच श्रुत्वा राजाराज्यहितैषिणः सुखेऽप्सुः सुहृदाम् मध्ये व्याजहारसरावणः प्रिया प्रिये सुखे दुःखे लाभा लाभे हिताहिते धर्मकामार्थकृच्छ्रेषु यूयमर्हत वेदितुम् सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा मन्त्रकर्मणि युक्तानि न जात विफलानि मे स सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः भवद्भिरहमत्यर्थम् मृतः श्रियमवाप्नुया अहम् तु खलु सर्वान्वः समर्थयितुमुद्यतः कुम्भकर्णो महाबलः सर्वशस्त्रभृताम् रक्षोभिश्चरितोद्देशादानीता जनकात्मजा सा मेन शय्यामारोढुमिच्छत्यलसगामिनी त्रिषु लोकेषु चान्यामेन सीता सदृशी तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना हेमबिम्बनिभासौ न्यामा एवमय निर्मिता सुलोहितलौ श्लक्ष्मौ चरणौ सुप्रतिष्ठितौ दृष्ट्वा ताम्रणखौतस्यादीप्यते मे शरीरजः हुताग्नेरर्चि सङ्काशमेनाम् सौरीमिव प्रभाम् उन्नसम् विमलम् वल्गुवदनम् चारुलोचनम् पश्यम्स्तदवशस्तस्य कामस्य वशमे इवान् क्रोधहर्षसमानेन दुर्वर्णकरणेन च शोकसन्तापनित्येन कामेन सा तु संवत्सरम् कालम् मा मया च राममायतलोचना तन्मया चारुणेत्रायाः प्रतिज्ञातम् श्रान्तोहं शुभम् श्रान्तोऽहम् सततम् कथं इवा ध्वनि कथम् सागरमक्षोभ्यम् धरिष्यन्ति दशरथात्मजौ अथवा कपि नैकेन कृतम् नः कदनम् महत् दुर्ज्ञेयाः कार्यगतयोऽब्रूतयस्य यथा मति मानुषान्नो भयम् नास्ति तथापि तु तदा देवासुरे युद्धे युष्मा सहितो जयम् तेमे मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् अदेयाच यथा सीतावद्भ्यौ दशरथात्मजौ भवद्भिर्मन्त्र्यताम् मन्त्रः सुनीतम् चाभिधीयत न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् सागरम् वानरैस्तीर्त्वा निश्चयेन जयो मम तस्य कामपरी तस्य निशम्य कुम्भकर्णः प्रचुक्रोधवचनम् चेदमब्रवीत् यदा तु रामस्य स लक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता सकृत्समीक्ष्यैव सुनिश्चितम् तदा भजेत चित्तम् यमुने वामुनम् सर्वमेतन्महाराज कृतमप्रतिमन्तव वा। विधीयेतसः अस्माभिरादावेवास्य कर्मणः न्यायेन राजकार्याणि यह करोति दशानना न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दृश्यन्ति हवीम् श्यप्रयतेष्विव यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति पूर्वम् चापरकार्याणि स न वेदनयानयौ चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकम् बलम् छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः त्वयेदम् महदारब्धम् कार्यमप्रतिचिन्तितम् दिष्ट्या त्वार्णावधी द्रामो विषमिश्रमिवामिषम् तस्मात् त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः अहम् समीकरिष्यामि हत्वा शत्रूंस्तवानघा अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर यदि शक्रविवस्वन्तौ यदि पावकमारुतौ तावहम् योधयिष्यामि कुबेरवरुणावपि गिरिमात्रशरीरस्य महापरिघयोधिनः नर्दतस्तीक्ष्णदं स्त्रस्य विभीया सद्वितीयेन शरेण निहनिष्यति ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वसा वधेन वैदाशरथे सुखावहम् जयम् तवाहर्तुमहम् यतिष्ये हत्वा च रामम् सह लक्ष्मणेन खादामि सर्वान् हरियूथ मुख्यान् रमस्व कामम् पिबचाग्र्यवारुणीम् हितानि विज्वरः मैया तो गिते यम क्षय चिराय सीतावगा भविष्य इशे श्रीमद्राणे वाक आदि का्युद्धकांडे द्वादश सर्ग